निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः आजग्मुर्जाह्नवीतीरे प्रमाणाख्यम् महावटम् तेतम् दिवस शेषेण वटम् गत्वा तु पाण्डवाः ऊषुस्ताम् रजनीम् वीराः संस्पृश्य सलिलम् शुचि उदकेनैव ताम् रात्रिम् ऊषुस्ते दुःखकर्षिताः अनुजग्मुश्च तत्रैतान् स्नेहात् केचिद् द्विजातयः सग्नयोनग्नयश्चैव सशिष्यगण बान्धवाः सतैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः तेषाम् प्रादुष्कृताग्नीनाम् मुहूर्तेरम्यदारुणे ब्रह्म घोष पुरस्कारः सञ्जल्पः समजायत राजानन्त गुरु श्रेष्ठम् तेऽहंस मधुरस्वराः आश्वास यन्तो विप्राग्र्याः क्षपाम् सर्वाम् व्यनोदयन् इति श्रीमन्महाभारते वनपर्वणि अरण्यपर्वणि पौर प्रत्यागमे प्रथमोध्याय